संहितापाठं तमीशानं जगतस्तस्थुषस्पतिन् धियं हूमहे वयम् उशानो यथा वेदसामसद्वृधे रक्षितापायुरदब्धस्वस्तये तमीशानं जगतस्तस्थुषस्पतिन्धियं जिन्नवमवसे वयम् उशानो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये तमीशानं यथा वेदसामसद्वृधे रक्षिता